मे oh. तेजस्मिन् तेजस्वेस्पन्देजु भोजास्तेजस्पन्दम् मामायुष्पन्दम् वत्यस्पन्दम् मनुष्वेषु गुरुधेक्षायेजत्वातपदस्थ तेजसेषु विरेजो विरशितेजो मामाहाजे माहम् तेजोहाशिषम् मामाम् तेजोहासेदिन्द्रौजस्मिन्नोजस्मे त्वम् देवेषु भो या भोजस्पन्दम् मामायष्पन्तम् भक्त्यस्पन्दम् मनुश्चेषुकरब्रह्मणश्चत्रा क्षत्रस्य चौजसे गोम्यो जायस्य ज मामाहासे माहमो जोहासिषम् मा वामो जोहाजेन् सोर्यभ्राजस्मिन् भ्राजस्मिन् त्वं देवेषु भूया भ्राजस्पन्दम् मा भायष्पन्दम् वक्त्रस्पन्दम् वरुष्टेषु गुरुभागोश्च त्वापान्तभ्राजसे जुहो विषु वर्विदसिवर् माहाजेन् माहं सुवरहासिषं मागं सुवरहाजेन् मयि मेधां मयि प्रजां मयि यज्ञस्तेजो मयि मेधां मयीन्द्रविन्द्रियम् दधातु मयि मेधाम् मयि प्रजान्मयि सौर्योऽभ्याजो दधातु युर्हि दत्ता ज्ञः प्रस्तोता प्रजापदः सा मृहस्पतिनुर्गाता देवा उपगातारो मरुदः प्रतिहर्ता रवीन्द्रा देवा प्राणभृतः प्राणम् मयुध त्वेतद्वे सर्वमध्वर्योणगातृभ्य उपाकरोहि देवा प्राणभृतः प्राणम् मयुदध त्वेत्या हैतदेव धर्मत्वम् धिणा देव ष् देवा सोवायः पृथिवीमाभि मधुमनिष्ये मधुजनिष्ये मधुमक्ष्यामि मधुवदिष्यामि मधुमदेयम् देव्याजगं स्रोषेण्याम् मनुष्येभ्यस्तम् मा देवाः वन्तु सौभाग्यैभितरानुवदन्तु प्रबुहन्द्विकायत्रेण छन्दसा प्रियं पा समुपे रुद्राबुहन् तत्रै शुभेण छन्दसेन्द्रस्य प्रियम्पा समुपे प्रबुहन्द्विजागते न छन्दसा विश्वेषाम् देवाना प्रियं पा समुपे हिमान्दासुते शुक्रशुक्रमासो समाध्ये च गौहासु चक्रेषु शुक्रासु ते शुक्र शुक्रमासो नामि शुक्रम् ते शुक्रेण गण्णाम् जह्मा पुरोगा शुक्रः पुरोगा यत्ते सोमादाभ्यन्नामजागृहस्मैते सोमसोमा यस्पाहोऽसि त्वं देव सोमगा यत्रे न छन्दसाज्ञे प्रियं पाथोऽपि हिमसि त्वं देव सोमत्रेष्टुभेन छन्दसेन्द्रस्य प्रियं पाथोऽपि यस्पश्च त्वं देवसोमजागते न छन्दसा विश्वेधां देवानाम् प्रियं पासोऽपि ज्ञानप्राणगे सुपरावता क्षाद्दिवस्पति आयुपृथिव्याद्यमृतमधि प्राणाय त्वा इन्द्राग् मे वर्च कृणुताम् वर्च स्वामो बृहस्पतिः वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विनाेवाय देव नवोषद् ब्रह्माणि मे रुतदेश्वादिकाव्याहेमिष्टक्रमि वा भवते एतद्वापान्नामधेयम् गुक्यञ्जदा पा मान्दासुते शुक्रशुक्रमाधो नो मीत्याहापामेव नामधेयेन गुह्येन दिवो वृष्ट्यमवरन्धे शुक्रन्दे शुक्रेण गृह्णामेत्याहैतद्वा अह्नो रूपम् यद्राक्रोन्यस्य रस्मयो नग्रा अजुच्यव त्याहयथा यजदेववा अस्य गं रोपै यद्वृष्टे रूपेणैव वृष्टिमवरन्धे यत्ते सोमादा आभ्यन्नामजाभिवेत्या हैष हवे हविषा हविर्गज द्वियोदा आभ्यङ्गहेत्वा सोमायजुहोदिपदावागेतस्यायः प्राणवेयोगुं हायुदेव प्राणमात्मन्धत्ते मृदमधिप्राणायत्वे वि हिरण्यमभिर्वलत्यमृतम् वै हिरण्यमायः प्राणो मृते नैवायुहात्मन् धत्ते समानम् भवति सदायः पुरुषः सतेन्द्रियायुष्येवेन्द्रिये वायुरसि प्राणो नाम सवितुराधिपत्ये बाणम् मेधाश्चक्षुरधिष्णोत्रन्नाम धातुराधिपत्य आयम् मेधालोपमधिवर्णो नाम बृहस्पदेवाधिपत्ये प्रजाम् मेधा हृतमसि धर्त्यन्नामेवम् तस्याधिपत्ये क्षत्रम् मेधा भोगमसि भव्यम् नाम पुतृणामाधिपत्ये पामोषधीलाम् निर्बन्धा हृदस्यत्वा व्योमनृदस्यत्वा विभोमनृदस्यत्वा विधर्मत्वा सत्यायत्तस्यत्वा ज्योतिषय प्रजापदर्भिराजमवश्यक्तया भूत् व्यम् जाभ्यस्तिरा तथा पश्यक्तया वेश प्रश्ने कामानशप्रश्नेनाम् पृच्छक्त यत् प्रश्नयो गृह्यन्ते प्रश्ने देवके स्कामालयमानोऽवरुन्धे वाय रसप्राणो नामेः प्राणापाणामेवावरुन्धे चक्रजश्राव्रन्नामे ताः देवावरुन्धे रूपमधिकर्णा नामे जामेवा वरुन्धर दमलस्तन्नामेत्याः क्षत्रमेवा वरुन्धे भोदमति भव्यन्नामे वा अपामोधेनान् गर्भः पशुमेवावरुन्धयेता वद्वेस्तदेवा वरुन्धरि तस्य त्वा व्योमनमित्याहेयम् भारदस्य व्योमेवामेवाभिजयप्रदस्य त्वा विभोमनमित्याहान्तरिक्षम् भारदस्य विभो मान्तरिक्षमेवा भिजय ऋदस्य त्वाभिधर्म जगित्या हद्यौर्वा हृदस्य विधर्मजपमेवाभिजय ऋदस्य प्रजष्ठते देवावैय देते ननावारुन्धर तत्परे न वारुन्धर तत्पराणाम् परत्वम् यत्परे गृह्यन्ते यदेव यज्ञे ननावरुन्धे तस्यावरुद्धेयम् प्रथमम् गृह्णाति मेव तेन उत्तरे स्मः समुदार्वाञ्च्यन्ते लोकान् पुनर्यमन् लोकम् प्रत्यवरोहम् जयत्वो रेष्व स्मितः पराञ्च घृक्यन्तेतस्मादितः पराञ्च इमे लोकायुत्तरेश्वः समतोर्वाञ्चघृक्यन्तेतस्मादमधौर्वाञ्च इमे लोकास्तस्मादयात्रयां न लोकान् मनुष्या उपजीवन्त्य ब्रह्मवादिनो वदन्ति कस्मान् सत्यादध्यवोषय सम्भवन्त्योषधयो महर्ष्यानामानम् प्रजापतिम् प्रजानप्रजायन् जयति पदानम् विजप्रोजा यद्गृह्णात् यद्भ्यस्तौषधेभ्य गृह्णामे यदस्मादभ्यमोषधयः सम्भवन् जयद्गृह्णात् योषधेभ्यस्तात् प्रजाभ्य गृह्णामे यदस्मादोषधय महर्ष्यानामा जय गृह्णाय प्रजाभ्यस्तात् प्रजापदय गृह्णामे तस्मात् प्रजापदिम् प्रजा अप्रजायन्ते प्रजापददेवासुदान सृजत तदनु यज्ञा सृजत यज्ञञ्चन्दाकम् सिते विष्पञ्च व्यक्रामान् स्व सुधानम यज्ञोपाक्रामद्यज्ञच्छन्दाकम् सिते देवा अमनञ्जन् धामेव इदम भूपनयद्वयज्ञ स्मयसिते प्रजापदिमुपाधामान् सोब्रवेत् प्रजापति छन्दसाम् वेदिक माला यदः प्रदाः श्यामे स छन्दसाम् वेदि यदेवभ्यप्रायच्छत्तदछन्दायस्य ततो देवा अभवन्परा सुधाय पञ्च्छन्दसां वीर्यम् वेदाश्रावयाश्च जगे कामहे कालो भवत्यात्मनापरास्य भ्रातं यो भवति ब्रह्मवादिना वदन्ति कस्मैकवद्भर्युधाश्रावयते निच्छन्दसां वीर्याय जो यादे न्दसां वीर्यमाश्राभयास्तस्रौषङ्क्यजय विदामहेमषकारो येम ैरेव यत्किञ्चान्द्रमृत्तमहन्न मेऽभ्यन्तद्यते न पावपदमेऽद्यन्तरथकस्मादे यज्ञाशग्रस्था गो यत्याहुरिन्द्रस्य वा एषा यज्ञयातमा यद्यज्ञस्ता मे नो घृतप्रदेवयो निलेभिृतम् हे त्वामधुचारितव्यम् इत्येव पुत्रमभिरक्षतादिमम् आवृश्च देवा एतद्यजमानोऽन्यभ्यान्यजोऽश्रुतम् नित्या धान्यत्रापृथमयेत्याये हविषो दुषानयित्रमपृथमयेष्टन् यादाहुद्गैवे नो शमयदिनात्रिमार्क्षदीयमानो यत्कृषेदमप्रदेत्तम् मय्येन यमस्य बलिना चलामि एव सन्निरमदयेतदेतदग्ने अनुमो भवामि विश्वलाप विश्वदापस्य त्वासञ्जहादेको हुदादेकः समसनादेकः येनः कृण्वन्तु भेदजगम् सदस्रहो वरेहण्यम् अयन्नो नभसा पुरः सफानाभिरक्षतो गृहाणामसमर्थे बहवो नो गृहासन् सत्त्वन्मा भद्रया पुनः नष्टमाकृथि पुनः नथि देवदर्गस्फानशासनपोषस्येषु चेतनो राष्ट्रिकम् राजस्पोषकम् सुवीर्जकम् सम्वत्सरेणादि आदत्ते ञ्जलिनादत्तोऽहं सर्वैष्मानरो यत्पदाभ्यस्तके वैनद्यस्पदगत्यह्ना विधान्यामेकाष्टकागामपो पञ्चतुःशलापम् पक्वाप्यातरे तेन कक्षमपोष यदि रहरि भवति यदि वा स्मयः पुरा विज्ञानेन दीर्घसत्रियो वा उपस्रष्टारमुपश्रोतारमनुख्यातारं विद्वार्यममुष्टं लोकयुष्टा भूत्तेन गच्छते निर्वा उपद्रष्टा वायमुपश्रोतादित्योनुख्याता धायेवं विद्वार्यममुष्टं लोकयुष्टा भूत्तेन न्नो नभदा पुरगित्याहाज्ञ्यर्वै नभदा पुरोग्यमेव ददा एतन्मे गोपायति सत्वन्नो नभदस्पदगत्याह वायुर्वै नभदस्पदर्वायुमेव ददा एतन्मे गोपायति देवसर्गस्थानेत्याहासौवा आदित्यो देवः सर्गस्थानः आदित्यमेव ददा एतन्मे गोपायति एकयवानम् परिबोददामि तेन क्रीडन्तेश्चरप्रियेण आनश्चाक्तमिषामेव नमो महिम्नपदक्षे मरुताम् पितस्तदहम् गृह्णामि अनुमन्यस्वसीमपुष्टम् देवानामिदमस्पहव्यम् देवानामेष उपनाह ोमस्य मिलेदोषाभ्यमहताम् गर्गराणाम् आमिक्षामस्तु प्रथमस्य नेतः वृणतराज्यायत्वारुदस्वर्गाः वष्पन् क्षत्रस्य घकुभिष्यगाणस्ततो न भुग्रो विभजावसूने एष पशुना यजतेजश्चेतानि चियन्तकेश हस्ते समृद्धेन यज तेजस्तेतानि क्रियन्ते सूर्यो देवोदिविषद्भ्यो दे धाता क्षत्रायवायः प्रजाभ्यः बृहस्पतिवात्प्रजापतगे ज्योतिष्पतेऽहोतोस्यास्त्रे हरितो गद्भोसोऽनिर्हि ङ्गान्यः कृताय सैनाम् देवैः समजीगमम् आवर्तनवर्तय निवर्तनवर्तयेन्द्रनर्बुदाश्चनः वेण्योः विमातरम् च पुत्रम् च विगर्भम् च जलागिता बहिस्ते अस्तु गुरुद्रप्सो विश्वलोकयम् दुःपवमानो धीरानन्द्यर्थम् एकपदे त्रिपदे त्रिपदे चतुष्पदे पञ्चपदे षट्पदे सप्तपद्यष्टापदे भुवना न प्रसता यस्वाहास्य हरिः प्रियमिन्द्रा बृहस्पति दश्च दर्श्यते अयम् माम् परिशिक्षते सोम इन्द्रा बृहस्पति चुर्मदाीतये अस्मैन्द्रा बृहस्पतिरिन्धत्तपुंसग्मिण्वन्तपुंसहर्विणम् बृहस्पतिर्नः परिपातु पश्चादोत्परस्पादारोः इन्द्रः पुरस्ताल्लवो न सखासटिभ्यो बलिवः कृणोतु ग्ने भामाधस्यन्तित्राविधम् विविधितमम् उभातन्तकम् सुभगविश्वदर्शन्तु विष्पणम् श्रीलङ्कर्शियम् दातातु नैर्मीशानो जगतस्पतिः धाता धाता जाया पुतराम् पूपनम् जानस्माकु हव्यम् कृतवत् विधेमारयिम् प्राचीयम् देवातुमक्षिता अयम् देवस्थ धीमहि सुपतिम् सत्यनाथतः तस्मै देवामृताः संयन्ताम् विश्वे देवासो अधितिः सजोषाः अनुनोद्यानुपतिलेज्यम् देवेषु मन्यताम् अर्घ्यश्च हव्यवाह नो भवताम् दाशु शेमयः अन्वितमेव त्वम् मन्यासे सञ्चनः कृति कर्ते दक्षायणो हि नोगुंशितारिणः अनुमन्यतामनुमन्यमाना प्रजावन्तीयमाणम् तस्मै वयगम् नो देवी शुभभाशर्म यच्छतु यस्यामिदम्पतिभूषन्त्यायवः यस्या, यस्या उपस्थमुन्तरिक्षपुंसानो देवी शुभभाशर्म राकामहुम् सुभभागम् सुष्ठुते सुपेश नूतन सुभगामोधरुत्मना श्रीव्यक्तपः शोच्याच्छिद्यमानगादरां सम् यास्ते रागेषु सुपेशोगाभिर्ददाशितास्तनोदरा श्रीबालिजासुपाणिः कुहो भाग्यम् सुभगाम् विद्मनापथमस्मिनि यज्ञे सुभवान् जो हवीमि सानो ददा दुःश्रवणम् वितृणान्तस्यास्ते देवि हविटा विधेवानाममुतस्य पत्नी हव्यानो हस्य हविडश्चिकेतु सन्दाशिरतु भोरि रामगुण्डाय स्पोषम् ओ